काटके प्रथमप्रश्नप्रारम्भः ओ सञ्ज्ञानम् विज्ञानम् वैज्ञानम् जानलति जानते सङ्कल्पमानम् प्रकल्पमानम् प्रकल्पमानमुपकृत्यम् लम् श्रेयोगशील आयत्तम्भूतम्भूतम् चित्तक्षेतप्रभानाभानम् बम्भाय ृत्तेजस्वानातमग्रप्सपन्नभितपन्ने लोचनो लोचमानश्वोपमानकल्याणः विश्वपाभिदर्शनात्यायमानात्यायापूर्वेराः आप आपोर्यमाणापोर्यमाणा पूरयन् दे पौर्णापोर्णमापे न्दोदप्रमोदः आवेशयन् वैशयन् संवेषान्दशान्तः आफलम् प्रभवन् सम्भवन् सम्भोजपोतः स्वस्तु संव्यक्तु सपुंसव्यस्तु सम् कल्याणम् विश्वरूपम् सुप्तमुदुदम् च तत्कि च रत्समिद्धम् हरणम् भावनम् मयि च मदभिर ेत्यमानः चलिता कपञ्चितवान् शुम्भो शुम्भमानो कामः सुता सुन्मते स्वसुतार्पयन्ते कान्ता काम्या कान्तजातायते कामधुफलाः अभिलास्तानुमण्डादो मोदः प्रमोदः आसादयन्निषादयन्तान्नः आभो जम्भोद्भुवः फलितम्ब यस्याम्बेभ्यः शतो गतस्वानार्यः देवोजेवश्याम् सो लोकः सह स्वाम् सहीयानोज स्वान् सहमानः जयन् अभिजयन् सुदविनार्द्रविमोदाः आर्द्रपमित्र हरिते समोदप्रमोदः कुण्डले भवति आर्द्रिन्दसभाषम्भव महत्पामेतत्कायो भक्ताः शुल्लकाश्चिप्रवेष्टकाः चरिस्वराश्रे नमः अजिलासो गविष्णवः इदानीम् आसुन्यच्रवर्णे सरग्रमान आसुराधीराञ्जमः अर्जष्टमोक्षो जरात्रिरात्रियाक्षोरात्रः अर्जतस्त्वन्द्रमानसो प्रजाभज संवत्सरो महानाङ्कः भोरज्ञम् च पृथिवेञ्च माम् च श्रीकृष्णलोगान्तम् वत्सरम् च प्रजाभजत्वासादय प्रयाजयवदयाङ्ग्रिहत्वप्रभावेन भोमोपालिञ्चान्तरिक्षञ्चमान् च श्रीकृष्णलोगान्त्रम्वत्सरम् च प्रजाभजत्वासादय प्रयाजयवदयाङ्गेन स्वरादित्यम् च निमञ्चमान् च श्रीकृष्णलभकान्तम् वत्फलम् च प्रजाभजस्वाभालय प्रजादयवलयाञ्जलस्वत्सवादेन स्वभस्वश्चमरञ्जय क्षमाम् च श्रीकृष्णलभकान्तम् वत्फलम् च प्रजापजस्वाभालयो हयादयवलयाञ्जलस्वेवञ्जयोमेव खिलश्चाभिश्चाष्टज्ञे एता भागश्चानुभो यादिश्चाश्चे च अग्ने आदित्याज्ञे एता भागश्चाविभो यागश्चाष्टज्ञे आते माते अग्ने मातिशयेणृक्षे सर्वे धां ज्योतिषा सपदौ जातमृष्टमोजः सत्य मे तप केन मे ज्वला तेन मे देविः यावद्देवाः क्यावददा विदौर्यः क्यावददा विब्रह्मात्सरोधि इदावत्सलोभेवत्सलोभे विद्वत्सलोभिवत्सलोभे कश्चले मन्दशिरः विष्णोक्षयाः पक्षः प्रविभापुक्षम् सः हेमन्त्रामध्यम् ओर्ववक्षाशिलयः अफलवक्षाः पुरेशम् अहोराजानेत्रकारः रव यत्सब्दो लोकः यस्याम् अधीयते वादिषो सम्मारे चत्याशुधिमामिणा हरित्याशुधिमापिणा कृतवितमुद्रयोनिः हिन्दुपक्षश्चपक्षश्च पुनोपण्यः महान् पदपक्षे महानिषत्थः समस्तेः अन्तरिक्षम् मे गच्छा हृम् मे यच्छा दिवेम् मेच्छा अन्तरिक्षम् मे यच्छा हिमम् मे गच्छा अन्धा प्रसारया कात्या भवत्सः ब्रह्मक्षत्रयुः कृष्पयः लाहिमानाय लोकम् भ्यावृत्सा राज्ञे लिलाज्ञेः धराज्ञेः पुराज्ञेः हर्चशोषिः अपोहरोः हर्यन्द्रौषक्मजिः तिष्ठाभुवनस्य गोपाः ते मासे सन्तो हसले स्वाहा त्रिपुटेस्वाहायस्वाहा अयो जयस्ताः शिरोः शिला जयस्ताः गृह्मप्रत्यायस्ताः राक्षायस्ताो सत्यायस्ता जय जयस्ता अम्रा जयः राज सुयस्ताः गौर्यायस्ता कन्द्रहेस्ताः सरुन्द्रायस्ताः कल्याणायस्वाहार्जुनाय स्वाहाय गाय मयेन भयामृगेनोच्य सावित्तम् गृह्णामि ृत्यवेपक्षुम शेन्हा हिम चेतस्था सर्वामेक्मत भक्स नृत्य मृतम यज्ञानाम् असालेः हंसो जालेः हस्तक्षुभम् असालेः अपादासोमनः फसालेः पुरस्तत्सुसाताः शोषो नामाः समुतोमत्येषु कम्वाहन्तेन असारेः अर्जन्मे वायुस्तुतः वा हृदये हृदयम्मये अहमृदयेन हमसम्ब्रह्मणे वायन्मेन प्राणे श्रुतः प्राणोहृदये हृदयम्मये अहमृदेन हमसम्ब्रह्मणे तूर्यो मे चक्षुक्षितः चक्षु हृदये त्रयं मयि हृदय हमृधम् ब्रह्मणे चन्द्रे मनसि मम हृदये त्रयम् मयि हृदय हमृधम् ब्रह्मणे चितो ृदय हृदयं मयि अहम् उदय हमृतम् ब्रह्मणे श्री मे शरीरीरं हृदय हृदय अहमृदय हमृतम् ब्रह्मणे रमोमाय हृदय हृदयं मयि अहमृदय हमृतं ब्रह्मणे इन्द्रमे मदय श्र अहं हृदय हृदयम् मयि अहमदय हमृतम् ब्रह्मणे पञ्चम्याने मम हृदये हृदयम् मयि अहम्वदय हमृतम् ब्रह्मणे ईशानमे मन्योष्ठतः मन्य हृदये हृदयम् मयि अहमृदय अमृतम् ब्रह्मणि हृदय मये हमृतम्ब्रह्मणे पुनर्मे सर्वत्वमदस्यैवानजरायत्मना सञ्जिता चायन्ता तस्माद्यते तमदस्य यदपि सत्माद्यष्टिः सत्माध्यत्रैते अभित्रात्मनः पृच्छतश्च चेदानींसाग्निभाषे सम्पन्ना अथ आहेद्यते भोष्यन्नोकः प्रचय विद्युदवेद्यमे पात्मानभिजे अथपुक्तापप्रचय कश्चन पश्च ने पात्मानविजे यक्षमाणे स्वाहेनाक्षेते देवदे पात्मानञ्जनः प्रविशतश्च सत्यगुम्भोहारः ब्रह्मचारिणे पश्चान्तश्च प्रतिभाय फले लक्षन्देयाम् पालिम् गच्छ अहं रक्तरक्ता आचारियो महास्थहि देव तेषदा वित्रा नरत्तः इति सर्वान् समये दिन्ति करसि मरिच्छदयते बलवान् देहिते अत्स्वज्य बलवान् दाहिते एतवभावतः बलवान् दाहिते भवता च तेयेततमते एव सर्वान् बलवान् दाहिते सरस्मिन् त्रैर सत्यैजे किं दत्सत्यनिजे सबैरे सक्तिन्दुरबैजे त्वरैले किं दद्वरमिजे स्थानैजे महात्मस्थानपरिवृच्छति माचार्यो वाचब्रह्मचारी होवाचप्रक्षोणीयाम् पाणिः चेद् ब्रह्मचारिम् प्राणमच्चक्षः होर्जपदिश्यते अहोरागार्याच्छेयान् भविष्यामि स्वमादामित्रे सममानिश्चेति हस्मार्ता नित्ये सम्मजेता सयो भवेदामित्रम् मिरुदामित्येव सहार्थंशियम् ददाति अनुभवः अस्माभूतमश्रियम् मन्यते हन्वत्मये श्रे तपो मन्यते हन्वत्मैतमोपनम् मन्यते अन्वत् केवलम् ताणम् मन्यते खेलाः सञ्ज्ञानम् विज्ञानम् दर्शा निश्चयते शेष एव दने अशैलाः वस्तु संवस्तदम् सुताभम् वचेते शेष एव ददने शेषस्येवतान्ये शेषरात्रयः अशैलाः पित्र के सुदातास्त्रदाता सवितास्त्रसविता सुष्टानुमन्त्रयते एष एव मुहूत्राः शेषाच्यशयताः पवित्रम् भविष्यान् सः भवान् तहीया सर्वे शेष एवजन एमासाः शेषमासाः अशयताः हेषः शेषवः केदवम् वत्फलः सशैवाः इदानीम् प्रदाने शेषुर्तानाम् मुहूर्ताः सर्वैः समाजकामा श्रीयते एवम् वेद हरिनाहा स गुम्सो हिरन्वयो भवत्वा स्वर्गम् लवचनिराजा आदित्यस्य स गुम्सेभिरन्वयो भवत्वा स्वर्गम् सवचने चेत् आदित्यम् हे एवम् वेदा एवभागो हसौ र सावित्रम् वितांशकारा षगुभवाना सर्वम् पदगौ धमो वेदा सावित्रम् वेदे महावाचां हेरावज्ञतीते अयमरणं सा विद्या देवानां उत्तमं लोकतः पुष्कमवाद्रेति चेरावजिगव नमः ऋग्जाववेदं कृत्स्नां ध्वनिकपाता नमो नमः इति सोवाचा मधीकयं संवरा पितरैः रक्षोति तस्माज्ञेयकैतसारितं मिलो तत्रते दिधनावकाराः शैवलेन वित्तस्याष्टाक्षरम् बलगृष्टियाभिन्नेन क्रिया हैवाभिरुच्चनृगे अक्षरेण पूर्वैरित्रेन आदित्यैरित्रेन शैतद्वेन ऋत्रस्याष्टाक्षरम् बलगृत्वयाभिक्तम् शैवन्नेन क्रिया हैवाभिवेच्चनय सहैवृत्तम् चक्रम्बमानद्युस्पर्गे लोकेष्मा भूतानि सम्पश्यते न् च एवम् वेदोदयवादित्येन समाजगामः प्रमुखो वाचा ये वित्रम् यद्दे अयम् वये प्रज्ञानम्भोदये एतवामृताः शेदमते यम् वाता पूर्वपक्षामरभक्षयोधाः धान्यानि हेमसुषाः सिद्धेन कुर्वन्त्यैकाग् नास्ते भोत्सन्धयन्ति अटिलोदलेन जना चैकाग् कुर्वन्ति रामवराष्ट्रेष्कामास्थले संख्यानम् विद्यानन्दत्यजे हे रामनुवाक्षाहो राष्ट्राणाम् नाम जय जाने संस्कृतम् विश्वमन् भजेजे हे रामनुवापर पक्षाहो राष्ट्राणाम् नाम जय जाने त्रय स्वाचरे हले गङ्गेन शो हरे मुहोत्राणाय स्वाखिमाश्चये इष्टाचारितापितानुमन्त्रे हेते मुदामुहोत्राणाम् नामधेयामि होदय स्वाचिमाश्चे हले गङ्ग समाधाना समाधानाञ्च समासे गृणमा है प्रामाश्चिये पवित्रम् पवयिष्यान् सहर्वान्धाव्ये चेयानि समासे गृणमा है प्रामाश्चये चेता तोनाञ्चलं वत्फलत्र जनामजयामि वेदा हयज्ञक्रुद्धनक्षरार्चिमाचरे अभ्यं वत्फले एकेन वाकालेभ्यक्रतोनाञ्चनाञ्चलं वत्फलत्र जनामजय हयज्ञरार्थिमात्सरे जं वेला ह वै मुहोत्रानाम् मुहोत्तामवेद ह मुहोत्रानाम् महोचेष्वास्तिमाचले इदानीः कराशेः ए मुहोत्सानाम् मुहोत्साः हमोक्तानाम् मुहोच्चेष्वास्तिमाचले ह एवम् वेद असोगताः क्षयप्रज्ञामोत्साहफलिचान्नमस्य एवमेवेषाम् प्रज्ञो भवताश्रान्नमस्ते स यतेषामेव तु लोकधागुम् साविध्यमत्त्व च अवमलम् नृत्यम् च यते च एवम् वेदा सत्यर्थमात्मान् लोकाच्चे च आत्मानम् वेदा अयमहमस्ते चेत् सत्यर्थम् लोकन्नत्व च त्वम् लोकण्डः परिप्रजानादे आत्मानम् वेदा अयमहमध्ये सप्तम् लोकम् परिप्रजानागे एको भैर्वैरम् तत्सान् वित्तः प्रज्जलोकमधिभागे वा इदम् विजरात्रायुरुजे सा निहानेवम् विदुषः मत्त्वम् लोके च महिंशयन्ते शेषु हैमतश्च महिमसमरेण मध्ये हस्त हैवाहो नारात्राणि मत्त्वम् लोके च महिर्नशयन्ते अशेषम् हैमतश्च महिमसमरेवाचेयम् जग्यभिरं शयानम् इन्द्रोग्रजो हरद्वाजान् मुक्तिराजे होबाजा हरद्वाजे चामन्त्र्यान्तालेलाः एतत्सानेते त्रिभिराजभ्यन्तमथाक्तमेव च हीमम् विद्धे अयम् वैतम् त्वेते सत्मैक्यगुण्ठामित्रमुवाचित्वा अनुसूत्वा स्वजम् अवगमियाय आदित्यश्चायुज्यम् अमुना वयमभूत्वा स्वजम् अवगमेते आदित्युध्यम् हरें वेदा एवं वेदा अग्ने अग्ने रेव कुशल वदता मास्नोति हरें वेदायो नाम जाने आयो रेव साहित्य कुशलभता मास्नोति हय एवं लेता इन्द्रस्य वातानि नाम इन्द्रस्यैवतारित्य गुरुफल अवगता माप्नोति हयम् लेता बृहत्पदे नामेवतादित्य गुरुफलवदा माप्नोति हयम् वेदा वृजापदे अधुना ब्रह्मणोपादित्य समाक्षपुक्षाजलेना तत् आर्यु तदान्तरेण तत्सर्वे तस्मात् साहित्यः ओर्गो हि स्य बालो हिवास्य क्षययोगे समसप्रयत्नेन विश्वम् यक्षम् यश्वभोतम् विश्वपेकामसुभमक्षितम् प्रजापयतो प्रजा परेतमन्तः विश्वै यक्षम् विश्वम्भोदम् विश्वगुण्ठ भवतम् विश्वस्य हत्रविश्वस्य जनेत्रे तत्त्वापदधयकामतकमक्षिदम् प्रजापयस्ता प्रजापदजापदम् समुद्रस्य प्रतिष्ठाः स्व हेदमन्तः विश्वै यक्षम् विश्वम्भोदम् विश्वगुण्ठ भवतम् विश्वस्य हत्र विश्वस्य जनेत्रे तत्त्वापदधयकामतु कमक्षिणम् प्रजापरिचारेण रस्त्रप्रभाः विश्वम् भोजम् विष्वम् भरस्य कृताः यक्ष्मासो हिमन्तः विश्वै यक्षम् विश्वम् विश्वम् विश्वस्य तत्यश्रुता अग्नेश्वः विश्वैलक्षम् विश्वम् भवतम् विश्वम् विष्णश्च भक्ते विश्वपुभामक्षिताम् प्रजामजक्ता जानयणा विश्वप्रजत्रामन्तः विष्णम् यक्षम् विश्वम्भोजम् विश्वन्धभोजम् विष्णश्च भक्ता विश्वसिदयका हन्तोपका मधुभामक्षिणम् प्रजामजक्ता जानय ेवदयाङ्गाधेन अन्तम् वायस्तः स्वः विष्णम् यक्षम् विश्वम् भोजनम् विश्वन्धभोजनम् विश्वस्य हस्तोमक्षितम् एव रत्नद्वगाधेन वायुरस्य एतमन्तः तिष्ठम् भवनम् यत्करुन् भवतम् तिपादानी आदित्य च प्रत्यः केन्दः तिस्मै यक्षम् यश्वम् भवतम् यत्करुन् भवतम् ऋश्वस्य भद्रेण विश्वे ृगामक्षिणा प्रजापयुत्पादालेन क्रियाङ्गिरत्वप्रथः प्रयेषः विष्णम् यक्षम् यष्णम् भोजम् यत्कुण्डभोषणम् विष्णस्य भट्टा विश्वस्य रमेता सन्तोपक्षिणम् प्रयापयुक्तालेन क्रियाङ्गिरत्वध्वेन न्द्रमात्या यत्यक्षत्राणाम् प्रदेशः स येन मन्त्रः यक्षम् यष्कम्भोतम् यस्वकम् च भवतम् शिश्वस्थभक्ताः विश्वस्य प्रदेष्ठा यस्मासो हिलमन्तः यस्मै यक्षम् यष्टम् भवतम् युष्णम्भोतम् विश्वस्य भक्ते विश्वजनहिते तानि भगवद्देशान्यक्षितानि प्रजाभिनक्षत्रेण स्मितः सोनान्तः फले मन्तः यस्मै यक्षम् यश्वम् भवतम् निष्णम् न भवतम् ऋषस्य भक्ता विश्वजनहिता क्षितम् खजापदिताः मातानाम् परिष्ठायस्तादो हितमन्तः विश्वम् निष्कम्भोतम् निष्कम् न भवतम् विश्वस्य मत्तादो विश्वस्य जनेताः तानक्षिताः प्रजापयुक्ता देवदयाङ्गद्भ्युमाधीन माताः हर्षमातानाम् इष्टः कृष्णै लक्षम् इष्टम् इष्टगुण्डम् कृष्णश्चिताय प्रजापयुक्ताचारेण यया देवतयाङ्गद्भुताहील अर्थमासार्थमादिश्चायस्मात् हितमन्तः कृष्ण यक्षम् यष्वम् भोतम् यस्वन्दुभूतम् कृष्वच्च भक्तारो यस्वच्चारः तालेकामधुपाक्षिनाय प्रजापति प्रजाय पटनाय अर्थप्रभागेन अभो रात्रे स्थिते भोजस्यत्वजे भव्यत्यत्वे युवयोः विश्वर्यक्षम् विश्वम् भोजम् विश्वम् विश्वस्य भज्यौ विश्वे कामदुभे अक्षिरे तयादेव कामावास्या न विदमन्तः विश्वैन्यक्षम् इष्टम् भवतम् विश्वगुम्सुभूतम् विश्वस्य पत्यो निष्वस्यः मधुभाषिताः प्रजावयस्ता सजापत्ते धर्मपत्ने शिष्टम्भुवतमलर्थभूतः स हेदवन्तः विष्म्यक्षम् विश्वम् भुवतम् विश्वगुम्सुभूतम् विश्वस्य भद्रे विश्वे साम्प्रकोजाः इष्टै्यक्षम् विश्वम्भूतम् विश्वकुलभूतम् विश्वस्य भक्ता विश्वस्तु तन्तापेकाभक्षितम् प्रजापयत्ता समग्रे महोदत् संवादेशात्पादेव श्रेध्वम् प्रथमा द्वितीयेव श्रेध्वम् द्वितीया श्रेयध्वम् To be our kathap jayra shayadvam, Kathaptha ap kandhamayra shayadvam, Kandhamar shayadvam, Kathapthamayra shayadvam, Kathamah kamehra shayadvam, Asamana vamehra shayadvam, Hama vamehra shayadvam, Nizamaneh gada jayra shayadvam, Eghadhazha abdhamad jayra shayadvam, Dada zah tanyo jayra shayadvam, prathama jaha svajanam prayatram adarsha panjaraya prayatram kantha shashwa shesh prayatram sarvaja matara shesh prayatram tapara stha devesh prayatram akshara ida ranam gunesh prayatram evaanna ida gunesh prayatram idaaya ida gunesh prayatram eva ida gunesh prayatram eka gungsa celeya gungsa lustra suddham dvang gungsa celeya gungsa lustra suddham dvang gungsa celeya gungsa pancha gungsa lustra suddham dvang pancha gungsa sadv gungsa sahastra suddham dvang sadv gungsa sattra gungsa sahastra suddham dvang sattra gungsa achcha gungsa sahastra suddham dvang ashta gungsa ekana gungsa lustra suddham dvang ekana gungsa gungsa lustra suddham dvang त्रिगुरुषाले गृशेष् हे गृषाद्वा त्रिगुरुषेष्पुरुषात्रयस्य गुरुषेष्प्रयध्वम् हेवा श्रेकालु साक्षित्रयस्य उत्तरे भवता उत्तरदत्वान उत्तरदत्त्वानः चित्तामगिरञ्ज्योमि कन्धे पदच्छाम् प्रयगत्या हिमावर्थम् सुमारिन्दिरः राज्ञिभिराज्ञे स्वराज्ञे हर्जशोषेभाः हर्जस्वमोहनस्पतिः शिष्योषाः हेतव्यत्याः अयव्यत्यामदारयिनाम् स्वः अन्नपदे अन्नत्य नो देहि अनेवस्य दक्षिणः सप्तशातालङ्कारिणः भो जन्नाथे द्विपेन्द्रुत्पदे अग्नेपतिवेपदे सामदीर्भाम् पदे स्पष्टप्रभाम् पदे पिष्टमागानाम् पदे चित्तवृत्त्यानाम् पदे मरुणधर्मणाम् पदे मध्वगणानाम् पदयः रुद्रवशूनाम् पदे हिन्दुविषाम् पदे बृहत्पदयम् ब्रह्मणस्पदे आदृशालोयम् विषालु च रोचमानः हरित्यापदयः तस्य विनोनौलोक्षमये अयज्ञादयोदयीनाम् हस्ते समिषः प्रत्यः सप्तजय सप्तधामक्रियायि सप्तवामत्रानुविद्वान् सप्तयो साजदेवताः हज्जयोसहितान् देवम् देवतानामिच्छत स्वमेतस्य देवता इन्द्रदेवताः इन्द्रदौसहितान् देवम् देवतानामिच्छत स्वमेतस्य ऋषाभिराशे रजय चेतृक सोम देवताः सोमहंसहिताम् देवम् देवतानामृच्छलो त्वमेकस्य विषयभिराशे पुरे चेतिक मित्रावर्णो देवनाः नेत्रावर्णो सहिताम् देवो देवतानामो त्वमेकस्य विषयभिराशने ओसादेवताः सप्तंसहिताम् देवम् देवतानामिच्छलो तस्के स्वमेतस्ये ऋषोभिनाशने हियन्द्रे हरितनाः हरितमुद्राम् देवीम् देवतानामिच्छतुम् एतस्य पुरुषोऽ पुरुषोमेकामान् समर्जयतु संसोजायमित्राणा हतालेः वजराः कन्दैतर्वाण हताः उषतमुषतमधीया हमसोद्योगिरीया त्या परिवारयीणाम् भवद्भेति वैद्यदिशन्ते अज्ञे यत्तपूर्णेरिक्तम् आदित्यार्थलङ्गिरः चिन्वन्तु विश्वे देवाश्चिवापूरयन्तु चिरश्चाधिलङ्गिरश्चार्थज्ञे एता विभूयामित्यार्थज्ञे लोकम् प्रणच्छिद्रम् प्रण अशोदीन हिमात्मनम् इन्द्राज्ञेरस्पुतिः अस्ति यया देवतयाप्रभाशोदलोहनः सोमद्यक्रीणम् व्यवश्रयः सन्मन् देवानाम् इषः तिवारोदने दिवः प्रया देवतयाप्रवाधेन हर्गे देवानुरामः जज्ञानो वित्तमये हजिरोता नरेद्या हरिणमहामणनायमित्थम् स्वमेधामिद्धत्यम् विश्व प्रत्यन्तम् येधाम् विसनम् हर्मिहोतारम् परिहोतमम् महिम् स्वाच्च हरिषप्तमानय साम् महाविषमेतौ सरस्वत्त्वानिधेमहे सरस्वत्वरिधेमहे हेष्वाद्ये समवि अयम् वा वयः पवदे सोवाद्यः प्रयत्नान् पवदे तदपः अभिरद्दक्षिणः सदक्षिणः पक्षः अभिरत्प्रत्यजे सत्पुच्छ समुत्सरः पक्षः अभिरत्सम्भाजे अजत्समञ्जलम् च प्रसादनम् च असोगम्पदेवा कृता रघुभवाश्चैतकाम चित्रामोचने Jhoad ni nadi ghezhin chin ude, dhujeyna mhevum veda. Kruhava aajjnadi ghezus jahidamum kujistham veda. Aayitadavan babaji yasadu kujistham. Krenyamma aajjnadi ghezus jahidamum kujistham. Kreevum veda. Aayitadavan babaji yasadu kujistham. Kruhava aajjnadi ghezus jahidam kujistham veda. ेन अथसौ भाह्यात् केवलेन चैतसायिसदा हकिस्तोकेस्तभागे सर्वहलीनामेते लोकाः केवलेन नित्याम् अथ हैतेवरीयागुणोकाः नेबलेनादित्यम् अन्तमन्तगो हमानेन्द्रक्षय्यल् लोकञ्जयति योगलेनादित्यम् अथ एषानन्तमपारमक्षय्यल् लोकञ्जयति चपलेनादित्यम् अनन्तगो हमापारमक्षय्यल् लोकञ्जयति योगावन्नाश समुदेन एवम् वेद अथो यथा देवमानेन प्रत्यमेक्षते एवं हेमो राष्ट्रे प्रत्यवेक्षते हवैवाय सर्ववे प्रत्यहनिषेधा नाम पुत्राः सर्वभगवान् गुणसन्तम् दक्षिणादिकश्चि गौतमकुमारविवैवेदा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 ीरामिने हाभिन् दिने प्रत्युवाजामिने प्रदानीरामिने असोगस्तगिने सिंहीरामित्यान्त नमस्ते अलमहि भवन्तीयते नाक्षे का हो क्षीयते सुरे नैरं वेदाय नागाम अवनृत्य सूर्यो सत्य सलोत्तरास्त्र क्षरेण सीरम् प्राचरेनैवाक्षरेण सीरम् प्राचरेनैवाक्षरेण अनैर प्राचाक्षरेण सस्माध्यन्य सम्भनानाम् शुञ्जप्रयणम् हृदय लघु समेतमेव नाविन्दय ैताम् दक्षिणमये आगत्वा हिमहत्ताय दक्षिणाग्रहाय रक्षागत्वा दक्षिणाम् प्रतिग्रहायेषु स्वलक्षदक्षिणाम् कृतिगृह्य एवम् येन एतत्सर्वमेतत् विद्वां सर्वाच सर्वदा गोतमाः अक्षिणो जयस्याम् लक्षिणाम् प्रतिगृह्णन्ते भयेन वयम्यक्षस्यामः प्रतिगच्छे चिणाम् प्रतिगत्या वैदक्षिणाम् प्रतिगत्याोत्तरवैर्याद्य उत्तर वैध्वः गामे अज्ञेन आमे हरे लङ्कामे नव्यमे नव्यद्धः पुनर्धते पुनः उत्तर्यामेव तत्रैव करो एम् हरित् पद्गम् लौकमजयन्धर हैरव हरित् पद्गम् लौकं जयते हिनाचेन हैरम् वेदाम् भाग्यकामः ततो श्यामिदम् भाग्यदथः एतावध्यवध्रे श्यामिदम् भाग्यदथः हिन्ना च हृदय यूजेन एवम् वेद असवेन पञ्चवस्त्राय पञ्चलक्षरः पञ्चवस्त्रायः एकाम् मध्ये परोगि सहस्रम् बशवन्त्रात्माय सहस्रम् पशो नामेवम् वेद अथ एनम् प्रजाभज्येष्ठामो विपत्कामप्रजाय रामः त्रिभुजे नित्ये सप्तपुरचाराय त्रिस्त्वः सप्तवच्चाय त्रित्ववृत्तरः एकाम् मध्ये तेन प्रेष्येष्ठमात्मान् एताम् प्रजायिम् राजाय काविदम् प्रजा प्रजायुञ्ज शुद्धे ज्येष्ठम् मातापिता पुत्रः म् वस्त्वम् मध्यमा प्रगतो ज्येष्ठमाप्नोति एताम् प्रजायम् प्रजाय शामितम् प्रजा प्रजायञ्चन योजेन अथसिष्ठतो ज्येष्ठमगच्छत् ज्येष्ठम् गच्छति योः खिह्नानि कैतञ्चन असयेन अथलेन अपि स्वर्गं जय शोन्नादिकैलं चेद्रे से ब्रह्मवत्सेच्छादृ जैं प्रापदे साहा ब्रह्म जय लक्ष्म्रह्मये चै भो य भो यथा दक्षिणालये दक्षिणालये यमाना दुत्रा हे विधाना वय सुवेणो भवत्या भो यत्रिणाय गण्डे पुरेगमैच्छन्नभः प्रज्ञाः या लोके असोयाभिम तया लोकिलये हे बलवीन्द्रे रामदायेन क्षणपक्षः वर्षा उत्तरः सत्पुच्छाः कर्मकाराः अर्जन्यावदोद्धाराः यथा एव अर्जन्यपम् मृत्वा सम्पूरयति एवमेव सर्वमान् सम्पूरयति यौनेन एवम् व्येन तत्र दक्षिणः ये स्वादक्षिणः पक्षः तया पृच्छन्तु तदन्तरपक्षः एवम्त्वायः अपरपक्षा पुरेणेष्टकाः पुरन्धवः ह्यमेव भवे पुरन्धव भवता स्वर्गम् नवगमेः आयुष्यश्च <Sanye>, नारिद्यम् ना ना ना ना यो मोन्ना सुखेन एवम् वेदाभ्यन्ताङ्गमास्यामलङ्कामाज्ञे हाशानाम् कामिष्वहानमजयत्तम् कामाभो सख्यकामस्तनग्रहम् चिला विराजायोज्ञः आव भद्राः पश्यामि सुखम्फलम् दिव देख्यान्दवानौ भगवाद्यो लवय श प्रजामयो ब्रवन्न प्रजामयते संयज्ञ संयज्ञ पुनर्मान्म इन्दय हरिष्य धरण ञ्जलो आचारीधम् अनुभक्षे धनम् अनुभवेद्या भवने अनुस्पर्गम् लवकम्यञ्जन अत्याशा भवे अनुपर्गम् लवकव्यञ्जने अभिधायने अञ्जय नामा यत्त्वा हनुमस्य स्वाहा प्रजापति स्वाहा स्वर्गाल स्वाहाय स्वाय प्रजापते कामय नवेशय काम मां जगे स्वाजय स्वमेषय रामाय भातमचाङ्गलय कामाय हरम् हनुमस्ते धनं हलो कामा भवने अनुसर्ग रागम विन्दले सत्य भजे अनुगम विन्दलेन्द्रहा स्वाहा स्वाहालय स्वाहा स्वाहा स्वाहे ्रह्माणाम् तरेण प्रजापते ब्रह्मनागरेश्वरान्द्रैरस्वा अथ ब्रह्मण्डा यज्ञो भविष्यते अनुपर्जन् लवणम् जयस्तरे रामाय पलवनादमष्टागवानन्यवदने ब्रह्मय जलम् अनस्ते जलम् सेतस्त ब्रह्मन्वायज्ञा वदने अनुत्वर्जल्लवणवे ब्रह्मन्वान भगवज्ञाने अग्रे ग्रामाय स्वाहा स्वाहा हनुमस्ते स्वाहा प्रजामृजय स्वाहाय स्वाहाय स्वायणे प्रजा अहमवे यज्ञानमस्ते भवान् अदय भक्त्या यज्ञास विषये हनुपर्जल् लवणम् वेत्के सहेत मध्ये रामाय भारमत्यागपान भजे यज्ञाय जलम् अनुमत्ये जलम् अतो भक्त्या यज्ञ भज अनुपर्णां गन्धं गम्भेन्दे तयते नविदारये बुद्धेन्दे गुणना सत्वहरे अखिलकैंवाइ स्वाहा यज्ञात् स्वाहा अनुक्ते स्वाहा प्रवरये स्वाहा सुदालोगाय स्वाहा कृष्य सुष्टगदे स्वाहे समाबोघ ध्वनिनां सुदावले सुरेशे स्वाहा त्रवा अप्सः स्वाहा हस्तान्वस्त्वा असत्य कामाश्रयिष्यन्ते हनुस्वर्गन् लवस्तरे हय कामायञ हलम् हनुमध्ये कलम् सर्वैरस्मिन् सर्वे कामाश्रयन्द हनुस्वर्गन् लवगमविन्दरे सर्वे हवास्मिन् कामाश्रयन्दे हनुस्वर्गन् लवगम् विन्दरे हेदयेन देवं स्वाहा स्वाहा प्रजापति प्रजापले हुमालिमानस्मे महा असे पद्वायुभूतानि वलिमोहरिष्यन्ते हनुस्वर्गम् लौकम् जैश्वरे कठिन मध्यगादमच्छागवानो जलम् हनुमत्से जलम् ततोमेस्मै सर्वायु भूतानि वलिमहरन् हनु स्वर्गम् लौकिले सर्वायु सर्वमै भूतानि वलिमो हरन्ते जय रामाय स्वाहा गया स्वाहा प्रजालाय स्वाहा गयागेन जना स्वर्गम् मे लोकमनुविषये अहम् मानुरस्मे महान् वेदस्ताम् अधुने सत्यानुगत्यर्भविष्यरे अनुस्वर्गम् लोकम् जयक्षरे तज नमगणे अगामायनागमत्यागमानवनुैतम् हनुमत्येतनम् हलो एतस्य सत्यानुगत्य भवने अनुस्तरगल् रागमविन्दने सत्याहवा अस्यानुत्य भवने अनुस्वर्गल् रागम् विन्दने हरिनागिने वेदाय कामागस्मानुमित्येमत्ये स्वाहानुषे रक्ताः स्वकागस्ताः कामानेकात् सप्तपञ्चत्र लोकस्य क्षते कामोहद्विहीनाः शृम्भुलीनाः यज्ञे आमके अज्ञस्वस्तने अनुभवे स्वर्गम् लागम् चिन्तने कामकाराः स्वर्गे लोके भवेत् स्वयम्भानन्दोल स एवमा समोहम् प्रथमो श्रद्धयाले लोके वृत्तमश्रु श्रद्धास्तु यथा लोकस्य देवी सानोनिषानोकयज्ञमागमाले कामनत्सानु श्रद्धा देवी त्वजादिष्टा हा विश्रद्धालो भविषा विलामहे सानो लोकभृतम् प्रथालो हीशाः देवी भुवनश्चाधिपत्नी आगानाः प्रत्ययो भवेम् यस्माद्देवाल्य रेभुवनम् च विष्टे सप्तैविधे मविषाध्येन यथा देवैः समालम्बनेभुवनम् च धर्मे न आगमनम् विलम्बभूतामलाभसमञ्जया ह्येष्माभिदेव वित्रेणोत्राणाः पवित्रम्पध्यायमानम् महत्वे ोहमानम् सर्वम् नो लोके दुहिताम् दधातो हव्यर्भोत्साहुवः अनुनो ह्यानव जन्मत्वम् हव्यवह्यम् शैव भोके फलो लोकिलो भोज हे प्रजापदिवन्ने ङ्गये अहमुे महान् व्यगतायने समये जलम् भवने हनस्वर्गे भव सर्ग श्रद्धाभये प्रजादय श्रद्धया वे प्राय श्रद्धास्ते हा नै दसा अजय श्रद्धा भविश्वरे हनुसर्गलागम् यैश्वरेणे हयगवायमत्यागमानवय श्रद्धायसम् हनुमत्ये गलम् खलु भवे तस्य सत्याः श्रद्धा भवने हल् स्पल् रागम् गञ्चने सत्याहस्य श्रद्धा भवन्त स्वाहा श्रद्धा हे स्वाहा हनुमध्ये स्वाहा प्रजामनय स्वाहा स्वर्गाय लोकाय स्वाहायेन षडु दे षडु सत्यमम् एनरे श्रिरे हनुवे सत्यमस्मे मां नदय सत्यम् सत्यम् भविष्ये हन स्वर्गम् लघम् जैश्वरे हयमा ज्ञै नगमानय सत्कार्यवम् हनुवेतस्य रथयु सत्यम् हरे हनस्व जल राघमविन्दने सत्यनुभवास्य सत्यम् फलगे हलस्व जल राघिन्दने सह सत्याग स्वाहा सर्वे स्वाहा प्रजापति हय स्वाहा सत्यागरो सत्य स्वाहे सम्मनोहाय प्रजापते हरसा विष्यदे हनुस्र्गं रागम् जयश्व सत्यम् मनोफलय हनस्वर्गं रागमविन्दय सत्यम् फला हनुगं रागम् इन्दये हे हरिहारे हृ स्वाहाय स्वाहा हनु स्वाहाय स्वाहाय लोकाय स्वाहा जय सत्य स्वाहे हरिम करे शरणे हरे स्वाहे हा हरे हा नय सत्यं जना भवेशरे हल सन्धेश्वरे हय न मा हनुमत्ये धनम् ततो वेदस्य स्वाहा हनुमत्स्ये स्वाहा स्वाहा स्वर्गाल स्वाहा जय स्वाहे हा पञ्च स्वर्गस्तु अपाधा अनुगोलाः हरः पुसमागमनक्षरे श्रद्धाध्येयाः प्रत्यः शरणम् पञ्चये हल हे स्वर्गल्गमविन्दये ब्दम् ल्पेभ्योदय दादृढम् असञ्च हो दत्तम् एवम् वेदा एता सर्वविद्याः एतच्छेत्रे एतानि वा प्रवाक्यात्मानम् प्रशान् प्रेरेण एतान् वादनौ प्रेशभ्राञ्चकारम् पाप्मानम् एतानुवध्ययने अभिवादनेन असौ अनुष्ठम् पाप्मानौ सेद स्वर्गकामः एतेनानिष्कामः फलम् दक्षिणदत्ताहो पञ्च होगानम् जगुषोदानम् उभयश्चनम् च यथाप्रकाशग्रहाय यथा प्रकाशल्लोकम् वृणाश्च ैलाः क्रेला हेताभङ्गे हयवीश्व रसभम् जिरस्य रजः हेधः हेमः स्थानम् भ्रातुस्कृते लज्ञः हेलाभागवेरः स्थानपक्षः रसञ्जले ंशिणा ददामिकविवंशो वा इदस्सर्गो लोकः सर्गम् लोकमान आप्नोतिपुषः अन्यत्मये शास्त्रम् ददाये शास्त्रसम्बिन स्वर्गो लोकः स्वर्गश्च लोकस्याभिलेत्ये अन्विष्ठकम् दक्षिणादनाय सर्वकारे सर्वस्याज्ञये सर्वस्यावृद्धये चिनविन्देता मन्थानेताः हस्तकरम् कामम् यत्रैकामायाज्ञानिबर्वाण्यागुणे सर्वस्यात्यये सर्वस्यावरुध्यै हिरञ्जनात्पर्जन् लो हातोवानाः समस्तवध्य ब्राह्मणम् भूयान् क्षिणानये क्रियते ञ्जयत्वम् कुलिवान् लङ्गक्यवरुधारिणम् सैव्यम् अभिचय सर्कलाक्षा उपलध्यायम् श्रेणित्ताण्याः हे जयव्यि हे याव्यम् ब्रह्महस्ताविध्यम् अगदानो हेनासामेव देवताभागुन्दम् आप्नोति हेन वैद्यता ब्राह्मणम् हसो नाचेदेम् शयनहिलालय ब्रह्मणा हिरालय उदयाङ्गीना सर्वार्थे सर्वाः सः सर्वन्दत्रेभे सर्वास्ताः धावन्तः पादन्तबूलेः संजालादेव मार्याः सर्वास्ताः सावन्तभूषाः कुशूनाम् सूर्याम् पुत्रलिताः सर्वास्ताः भावी व्यक्तिगताः सर्वाः अप्सङ्गस्यकाश्रमाः सर्वास्ताः शावणे शङ्कराध्येः अस्याम् पृथल्या हे सर्वास्ताः सावन्तोऽस्मानोऽस्याम् कुशल्याम् परिष्ठासत्परिष्ठिराः सर्वास्ताः यावलेन वेलुः सर्वाः रुशिलाः कुशलेण सर्वास्ताः सावदे कृष्कः कुशलेन सर्वास्ताः रामन्तयः अस्यां सुवास्ताः सावन्त्या कुलवत्पल्लेः हारण्याश्रये सर्वास्ताः जयश्वः सर्वास्ताः यावदाञ्जलमुच्चः शैवत्रायम् salvastaha yava krishnaya rudra samhara deva saitarajam salvastaha salambha hyam purvam aitraishtamargam salvastaha sarva gune sagam sammo deva saitarajam salvastaha sarva gune namo risham deva aitraishtamargam salvastaha anantam gunam bhayanam हे अप्लारिक्षमाभि हस्तारष्टगः कृत्वाभिनेन ब्रह्मणः सयादेवदयाङ्गेन हस्तारष्टगः कृत्वा स्वगामुद्भाभिनेन ब्रह्मणः सगादेवदयान्यस्मध्वन अन्यरिक्षम् च केवलम् It's a p'nangra hiram Sarvata ha Andraksha Syaaf Tuna ha Dibharvaathka Laskyay Sarvata ha Harvan Dharam Tuna ha Andraksha Syaaf Tuna ha Harvata ha Harvan Dharam Tuna ha Havaraath Proshya ha Sarvata ha Harvan Dharam Tuna ha हेमोक हृदय सर्वस्ताः सर्वाय हेराय हे भालोक हृदय सर्वः हे नमो भालय सर्वस्तानः सर्वन्दे हरिणः ध्यायाश्चयः सपक्षे आकाशम् चित्राभे प्रदक्षिणम् यासर्माण अंदर छे सर्वास्ताजरम सर्वास्ताश्रद्धांतवलोकूताक्षण बृंहणुराधीन ङ्ग सत्त्वदेव सर्वास्ताः चेत् लोकाय च लोकाः अन्तर्भोजम् व्रेष्टम् सर्वास्ताः यत् शब्देष्टाः ब्रह्मा अन्तर्ब्रह्मम् व्रेश्यम् सर्वास्ताः होरास्त्राणि सर्वाणि अल्पभाषा विश्रियाव सर्वास्ताः सर्वाङ्गलो सर्वान् भाषान् संवत्फलम् च केवलम् सर्वास्ताः सर्वम् सर्वम् सव्यम् यच्छातोऽपि भविष्यति सर्वास्ता इष्टका ब्रह्म दयाले जलाङ्गादेशुच्छिनामरामराम् सर्वनामसाम् प्रदेशे न्दोक्ष्योक्ष ्रह्मणाहैव दत्तम् वै सम्बन्धमाहो चतुर्वेदक्षत्रियत्वार्योवेदोभ्याम् प्रसूते वाषाः शीक्षणा सप्तमासे ब्रह्म ब्रह्मासयम् पुरस्कार आ अर्धमासाश्च ब्रह्मगत्ययः हच्छा मात्यतः सर्वेषाम् तथा कृतजासना ऊर्जाविः हेष्टेया मेदत्रिः हत्याम् श्रद्धा हैवायम् यावत्ते विश्वसजाः आकोजन्मिनध्वः हृद्वमुहच्चैग्ने पृष्टाचालहाराधे मागे लाहु सुब्रह्मण्यादेः सङ्कस्था च सर्वदः भव ख्यातः एकम् दशन्तम् अथवा त्वम् मिलित्वा हम्मनाविण पञ्चपञ्चासनप्रबलसंवर्तना पञ्चपञ्चासनपञ्चदशाः पञ्चपञ्चासनप्रप्तसा पञ्चपञ्चासने विंशा चित्तदुलासमनफलम् हेदः हेष्वशजनः सत्पादः विश्वमे ब्रह्मरस्ताविध्यवगदाः हेतायामेव देवदानागुताविध्यम् शास्तिरायुसमानलवगताः हेतुभयन्ते हे तै नक्षत्राहुः हे च तै नक्षत्राहु हो कैत्यीयारण्यके प्रथमप्रश्नप्रारम्भः ओम् भद्रम् कर्मे ओम् शान्तिः भद्रम् कर्णे विश्वुभियामदेवाः सदम् वश्ये माश्वशीरत्रा श्रेरङ्गेष्प्रभागम् सत्समाभिः विषयदेव हिरञ्जराजः सत्यन इन्द्रावृश्रवाः सत्यनः पुरुषाविश्वमेधाः सत्यनत्रा सत्यनाविभक्ष्पति हाता नसर्वाः हस्मादस्मादितोमुता ह्यवायुश्चतुर्यश्च प्रगञ्जक्रणध्य पायवस्तारश्चिवयः हरे चात्मा महाद्रुवः हे वेभवनसोमरेः पुत्रवत्तारिमेदा महानाम्नेर्महानाः महतो महतस्ता हे वेः पर्जन्यगोमरेः पुत्रवत्तारिमेमपार्ष अभामपा हवाग्म् अपरिरबीरतो भुवनन्दे लभूहे शिवानश्चन्तमाभवन्तो दिव्याः व्रोदयः पुरुषेदात्यक्षमैदित्यम् हनुमानस्तदृष्टयम् चैरैरादित्यमङ्गलम् सर्वे विधाः कृते परमस्माभिः तस्याः पार्वशेषण पदङ्कालविशेषणम् नैव कृपः काचित् अक्षय्याः सन्दनेयः तान्मध्यमायन्ति सौरत्रये निवर्तये एवम् नानासमुत्थानाः कालार्थम् अच्चभ्यश्रुताः अनुसत्तमः तस्य सर्वे समयन्त्रणम् तदेव सर्वैः समाविष्टः उत्सन्न निवर्तते अभिसम्वर्तनम् विद्यादे तदेव लक्ष्मणे अभिवित्तमाद्विष्ट समागढप्रदिश्यते सम्वर्तनप्रत्यक्षेण आदितत्त्वप्रदिश्यते फलविक्रहकिङ्गः एतत्सर्णलक्षणम् चक्रेतु प्रदिश्यते एकपञ्चाणाम् उच्यते शुक्लकृत्य तस्य यदा भवति शुक्लन्ते अन्यच्चे अन्यदेशलोके अन्ये ज्यौनिवासे विश्वाहिमायापताः जालय गुढम् इहराजस्त्री भुवनम् स पूषाः न पशवः आदित्यसंवत्सर एव प्रत्यक्षेण प्रेतमम् विद्याय एतदेव संवत्सरस्य प्रेतमघम् रोमम् शोस्य महानक्तवृत्तस्य मानफले सम्पुण्यम् पुरुषे समाहरणम् दद्याय सा गञ्जानागम् सप्तमाहुले जगन् यम् शृणोते कश्चित्तत्र कुण्डकालङ्कारः शुत्रवृत्तौ शलास्थिकौ सागवत्त्वरक्षः सहत्वसमस्कृतः अमुनादे अमुपरिरक्षसः एतावालत्वेद्यन्ते कत्रेदुपदिश्यते एतदेव विजानीया प्रमाणङ्कारव क्ष्यामः आदित्यानान्यकौशल संवर्तरेण कर्मफलम् परिता दुःखचक्षदिपा तद्मापीतवदिष्यते ैव सार्गच्छन्द्रे सा प्रेत्सरेन्दे हरिषार्थः त्रिपथय आम् केधान्निवोचन कनकापाणि वातानिवत्येतमुद्योजीवनप्रतः एतावाच प्रयुज्यन्ते सरज्यपदिष्यते अभिधवन्वन्तान्तः अमुदोषेखमिव सन्नद्धाः सह दृशेः समद्रस्यैविनः अक्रुद्धस्य वृद्धस्यैवलोहिनी हेमदस्य मनो नाम जगन्धे हेदाेः तैल्याम् दिशेःपवमाना अन्वये क्षदान् तस्य एकावरणे हरिधा हस्तिमजेवायक्तान्ते खण्डित्वा तदा हैलेवानमत्सः कलविद्य कासलमात्रे तस्यैन्द्रौन्द्रयोगेन अभ्रपन्ने विलक्षले शैलेवलेन सप्तवर्गा भवर्गेण एकेन कृतसारे श्री श्रीरप्रदर्शने श्रीभवर्शने अन्यमान्य तत्प्रज्ञैवलक्षणम् सौर्योलय नम्पे पण्डलोण्यञ्जलिकान् पण्डलकान् इन्द्राय सर्वान् कामानपि भवे तत्ता सत्यैका जानकृतानुव्याभवन्तम् अधुरान्त्रेणत्तम् तत्सरोचार्यान् जय मान्याञक्ष्मयेख्याताम् चले ख्यायिकानिर्वचनाः प्रणमखलिङ्गः विभागः हे अत्रे भोजनामः न जाते सत्य तस्य दुःखम् कस्य पदनापदे इन्द्रियापकस्थलम् च प्रभाम यस्मिन् स्वम्याकर्षिता सप्तदाकम् तस्मिन् राजानमपि सर्वे कश्च वा ज्योतिम् लभन्ते सान् स्वमगे पश्चाजन्मधिकैवम् सामाजीवानेन्द्रियजीवाने सप्तजै धन्या प्राणाः शौर्यायित्या अपश्यमहानेतान् सप्तसो पञ्चकर्मध्यायनः सप्तकर्मश्चप्लाक्षिः आनुषिरे सौर्ये जगिरेणमहामेलम् गन्तम् अपश्यमहामेतौर्यमण्डलम् परिवर्तमानम् सा रिकप्राणप्रादः यच्छन्तमहामेलम् शैलम् च जगदम् ध्याजपटलपदङ्गाभिधने सन्नातभन्ते कस्माभिरत्रिवाः समुच्चेतरे कस्माभिरातत्र सपाः केषामेषा भवति सप्तदौर्यामिष्टाः साक्षिणाबाणे हे अस्मे सर्वे प्रमासन्ति पूर्जन् दुहानाहत्वरङ्गे सप्तशिलस्तौर्या इत्याचार्याः केषा मेधा भवति सप्ततिशो नाना गौर्याः सप्तवतादित्याय सप्तामाधिरक्षणयते सत्याः शिद्धम् करोति एतैवाय इदमेकम्बाहि सत्यैराभवने सद्यावयन्द्रयुगम् भोमेः उदात्युः सत्वायाः सर्वे ण्डलान्योत्तम् दैवा भवते सिद्धम् देवानामुदकादनेकम् चुमित्रस्य वर्णस्याग्नेः कृते अन्तरिक्षम् सूर्य आत्मा जगदत्सुरस्य विरमो धन्यविषये वत्सदामिषः ोर्यमाहिताः अभ्याहान्यक्षपद्यन्ते स्थितो अरण्य हि मे भूमिः यञ्चादोषे किम् परायणम् एको यद्धाय जः के चे क्षायफलमाहो अक्षराध्ये सर्वदाय महोत्सवम् अक्षया एतदस्य पलायणम् वृक्षायच्छाफलम् नृत्यम् अवमध्यमञ्चरम् दोषञ्च पुण्यः पानाम् एतत् वृक्षा विवम्पयेमावम् नृत्यम् अवमानम् अध्यमम् अक्षलय रामानृत्य परितमाः च दृश्यते अनापोगाः परम् लत्यम् पापार्थ सर्वदा आपोगाश्चैव्यन्ते शत्रप्यतोजनाः अथवायन्ते सुतमध्यम् च पङ्के चित्रालितापापगृहः यत्रयाभिमः सन्नस्तद्ब्रह्मम् तद्ब्रोहे पागृहाय सत्यपादृशाः आपान्यभ्यन्ति सर्वदान्यत्रैः केशैरान्ते कर्माः समान्यपादकेशासः तत्र चैव निशाजनाः कृत्वा लभ्यन्ते रज्यमानास्त्वकर्मभिः आशाविकाक्रमेकोयम् देवासरेः अवैदम् मृत्युञ्जयते एवम् जयदा कठर्वयम् यद्ब्राह्मणः ये अर्धश्रुत्तमा भवति तस्य वक्षात् सिद्धगमनसिद्धागमनः तस्य इदा भवते आयत्यम् प्रथमा भवाः सर्वोः विषयः ये अर्धश्रुत्तमः इन्दस्य तस्य वक्षस्य भवते तत्सर्वम् परिवर्तते तथाज्ञा परिचेता भवने अध्ययने सुद्वान् योज्योनः भूयस्थानम् च नयते सञ्जिजातलेधाश्च पञ्चलाभासप्तमः सप्तैवास्तमाध्येनाम् हेजस्तक्षिता इति सप्तैवाज्ञाः शीलाक्ष्यश्च वेदकाराज्यश्चादस्य एकाद्रैवस्याजमानाः शास्त्रमपि प्रैक्षाः रजना स्पनुषाः श्यामाः कपिनाशिलोहिताः भूमन्दाश्च हैत्यदयित्यैकादला है वैत्ये हेम् वेदा होराजव्याःत्यमेवाहम् मृत्युमयेश्वमकम् हन्ते हेम् वेदा हसगन्धर्वगणाः स्वानद्रान्तापंसाये हस्तहस्सः श्रीरामदिष्टावन्दान्तर्यवच्चाः त्य एकादशम् धर्मगणाः देवास्तमहादेवाः देवाकरः श्रेयङ्करोमस्ते श्रें वेदा सौरे राजपक्षवे एकपदे द्विपदे राजपक्षपदे हतापरे नवपदेमुखोषे साक्याः ख्याताः क्रमिष्यामः स्वामिवः पर्जन्या सप्तेन प्रकटन्तेभक्तिपरीताः सप्तशविताः समान्दलोकान् प्रकलिषन्ते तेषामैषाफले समानमेव भोगिम् पर्यन्यालिम्बन्ते इवम् जिवन्त्यज्ञैः जयक्षरम् भोजगतम् विश्वेदेवासरे भार्यवक्षकोक्तारम् शमनग्रिमपुर्वदा शमनग्रियात्यायते सङ्गाभिश्रैः राज्ञः स्वामस्य दत्ता सह ब्रह्मनाभि्यामदा शिवानः प्रतिशोभिषः सच्छञ्जो राणीमहे राज्य यज्ञपदे देवे स्वस्ति न पुनः स्वकर्मानुभेभ्यः धन्यकाले हयम् षण्गम्याख्याताः रस्य कृते भोगिः परम्यम् सहस्तवदे अश्विना सज्जूना सत्या तिष्वस्य जगदत्वजये ह्यायाभूमित्वजव्योमा ऋषमन्तालेश्व पुत्रौ ऋद्रः सरमादिवत्रे गुणम् शुक्रम् वा नन्यस्य हृदम् वा नन्यते त्रिशदौ जय अहमेद्योरिभक्तः त्रिस्वारिमाया रथस्त्वन्तौ सज्जावाराम् पूर्णाजिरस्तो पासात्रौ जगतो निधानो ह्याभूमे शरथस्य कुङ्कायौ लक्ष्मिना राभाः स्वाहवम् मे सुभी आगलम् सूर्यया सह शुभ्राज्ये नुद्यमोहलिकैः समुद्रस्य सन्नपाले ृष्टये विलम्बन्तम् हनुमत्सादिताम् बलः आपगोरकम्बरश्चैव सवितारेभवने शकुन्तम् निज्यैव भवताम् हिलम्बे सङ्ग्रहजरुद्वालक्रियान्तम् आयतोयान् स्वामतत्सङ्ग्रामक्रमवाद्याकृतौस्तवान्य रक्षानन्विताश्चय हन्तः हयुसुगोधारसुर्ग्याः शिवोरात्रे दम्पति हेमफलः हिमवेदो वत्सौ अद्यश्चादित्यश्च रात्रे वत्सः श्वेतादित्यः सम्भोग्नेः आम्रकर्णः काल्यौ दम्पति एव वृत्तस्य वेदुरश्च अग्नेर्वृत्तः वेदुराश्च कालौ दम्पति ऐपदः फलो वृष्टौ पुष्पाजने हारश्च वृत्तस्य हारः सौकालेव प्रयोज्यते हैलमुदात्रे गर्भिणीरुत्रेण सम्बोदके सत्यावाय दुःखनम् रात्रो रक्षः गर्भिण्या वन्तनम् एवमे सत्या वनम् प्रलयश्वप्रलया च भवेम् वेदा हेलमुद्यन्तम् हिम् तञ्च आदित्य पुण्यस्य वत्सः अथ पवित्रा पवित्रवम् दत्तरिवाजनादरे रत्माभिरक्षरभरम् महत्तमुद्रम् वर्णस्य गुण्डम् ब्रह्मास्पदे अलन्त अस्मदे सदा हेग्रहम् दत्तसमादधा ब्रह्मादेवानाः तजेतक्षेस्त नक्षत्रे सङ्गहाभन् स्य देवे हे अयनप्रयोज तत्र स्वयं देवस्य भोजनम्बादम् ञकदाम्भविष्यामः असमभूतानि भवलेक्षन्तान्यः अलेया पुत्रस्य इमार्युना वेद अत्येव्यायम्बामार्यादिदे अजरम् उदम् वेनामलनादिकम् हृदञ्जय अङ्गारे हरिषट्यक्ष् हस्माजयः सोनम् परिणामे अप्रत्यं भवत्य आत्मज्ञेरसम् चेष्टा एकामे घयोजम् एकचक्ष्णे प्रफलम् मा दद्धा न्यतरे माभ्यामिष्टय विमुक्तवाचय त्रिपुंसराजा एतर्वायुञ्च आतश्च प्रदमष्टासना आदित्यगतम् एकौरुद्रवृत्से सङ्ख्याता सहस्राणि पर्ये एवमे सन्निबोधनामन्त्रेन्द्रे जाभिः मात्वारिन्द्रन्द्रेन्द्रहरिभिः सन्दयवतारितमापन्नः इन्द्राचार्यशास्त्रैः अग्रयक्ष्रास्त्यनः शिक्षास्य ब्रह्मण्यागुम् सुब्रह्मण्यम् इन्द्रावस्थम् चिह्नहल्यामे जाण कौशिकब्राह्मण गौतमम् कृपाणा करुणात्मागताः प्रथमकृषवक्षितः हस्तो विद्वासुतोः ताम्रास्वाः ताम्रवर्णाः तथा चन्द्रः तिशोरुद्राः पराङ्गनाः उक्तस्थानम् प्रमाणञ्च परहिताः विश्वना अप्सुशायोः तस्य हिलाभवजे सार्णमजे ब्रह्मण आस्तरणमजे ब्रह्मण उपस्तरणमजे अष्टयो मे मत्सपुत्रान् अस्तपत्नी अहम् मे लनमे मृत्यः सचामृतलाहज हस्तयोवान्यष्टपुत्रम् हस्तभरितमन्तरिक्षम् अहम् मे लनमे मृत्यव सचामृतलाहज अस्तयो मे मत्सपुत्राम् अस्तपत्रे महोदयम् अहम् मे लनमे मृत्यः न चामृतलखाहज सुत्रावानम् वये मोज हरिदर्जवरितरिक्रम् हरितमाता सु पितासुपुत्रः देवालिः पञ्चजनाः हरितवलि सद्यम् अष्टव पुत्रासु हरिजयरेन्दमात्रे पुत्रे हरे उपक्रयेगम् प्रजायी नृत्यवेदने न्दे तान् वक्रमिश्रामः चित्तश्च वर्णश्च अगुरुस्तभगश्च व्यवस्था चेते कुम्भरिज्ञानन्तरि पदविषये सद्भक्ताया वच्चः हसपुरुषः योगो तपन्मुचयते सर्वेषाम् भूतानाम् प्राणानाटा योजयति प्रजायामावसोनाम् आमप्राणा नाला योजकाराः असव्यसमे सर्वेषां भूतानां प्राणानादा या समे प्रजायामाकप्राणाना शङ्काराः असौ आमोर्यते प्रसर्वैजाम् भूतानाम् प्राणे रामोर्यते आनय प्रजायामावसोनाम् मामप्राणे असौरिष्ठाः असूय पक्षीयते सर्वेषाम् भूतानाम् खानेन पक्षीयति हाने प्रजायामापशूनाम् मामप्राणेन पक्षेष्ठाः अमोन्यनक्षत्राणि सर्वेषाम् भूतानाम् खानेन पक्षम् जिवक्षिता माने प्रजायामापशूनाम् मामप्राणेन पक्ष सर्वम सर्वदा हिमे मासार्धमासाश्च सर्वेषाम् भूतानाम् कामेर प्रदर्पण्डितो कर्पञ्चिद मामे प्रजायामादसोनाम् मानव प्राणेन प्रसवधमोऽक्षवदवः सर्वेषाम् भूतानाम् कामेर प्रदर्पञ्चितोपञ्चिता मामे प्रजायामालसोनाम् मानव प्राणेन प्रसवधमोऽक्षवदा सर्वे राम् भोलानाम् प्राणेन फलोक्ष मामे प्रजाया मातु मानव प्राणेन वा सर्वे गां भोलानाम् प्राणेन फलस्वक्ष मानेय प्रजाया मातु मानव प्राणेन वा जियमुस्ते सर्वेषाम् प्रजाया ओम् असादित्यस्यादित्यानागस्थाने प्रवेशदा भामि वृद्धानामादित्यानागस्थाने सवेतदा भामि आदित्यानामादित्यानागस्थाने प्रेषाभानि तथा आदित्यानागस्थाने प्रदेशदाभाणि हरिभवङ्गनामभिनाम् साधवनाम् मरुणाम् आदित्यानागस्थाने प्रेषणाभाणि त्रिभुवनामादित्यानागस्थाने प्रदेशनाभाणी विश्वेनाम् देवानाम् आदित्यानागस्थाने प्रदेशनाभानि सम्बद्धनश्च सविलः आदित्यस्य स्थाने स्वदे ॐ भवनगुवेद्ध आरोग्यस्य स्थाने स्वदेशदा भाणि कारस्य स्थाने स्वदे परस्य स्थाने स्वदेशदाभानि स्वरङ्गस्य स्थाने स्वदे सन्द्रस्य स्थाने स्वदे जोरिमदस्य विलासस्य स्थाने सुले लाभानि कश्यपस्य स्थाने सुले लाभानि कादशपरिषत्यैकादशत्यै गत्यानागुस्थाने सुले लाभानि शिवराना गोनागस्थाने सुले लाभानि आदिगळीतुलाना गोरुनागस्थाने सुलेतुभानि अजराणा गुरुस्थाने वैदी अरुणा गुरुस्थाने भाी श्यामाना गुरु अभिवाहिरा गुरुद्रा नागस्थाने भी गो ना जानी ना गो नाणी नागस्थाने प्रणी आीना भानी अभि नागस्थाने प्रेदना भानि अतिना गोरु भानि अवद्रा नागस्थाने प्रेता भाणि नागस्थाने प्रेतना रूपाणि वा विधम् मानो वितनगुण्डे धन हसाज्ञैरक्षबल अज्ञैपूर्वस्य स्थाने प्रेरला भाणि दादरे वरिष्यस्य स्थाने प्रेषणी सहोजरो लक्षणशिष्यस्य स्थाने प्रेदलाभाी हरि वरिष्यस्य स्थाने प्रेलराभाणी हरिष्मारक्षा वदिष्यस्य स्थाने प्रेदलाभाी हरिया बलिष्यस्य पञ्चाशुवृष्यश्च स्थाने श्लेर्षिणस्य स्थाने श्रे ओम् फलत्तः विश्वम् दक्षिणपोर्वस्याञ्जर्विधर्षे नर्गः सत्तान्नः परिपाहे दक्षिणापरिश्च विधर्पे नर्गः सत्तान्नः परिबाहे उत्तरपूर्वस्याे नरगः सत्तान्नः परिपाहे उत्तरापदस्यान् नित्यविषाले जनकः सत्पान्नः परिपाले आयस्मै सप्तमापवाविन्द्रियादितविचे विदुरघोषाप्रदश्चादुपदश अनवजभावम् पुष्पकर्मा वा नित्यैरुत्तर उपदशाम् प्रश्नालोकैर्भनिष्ठादुपदशनाम् साम्याचार्ये आदित्यस्तर्भोग्यकुतुर्या बाल्यन्तरिक्षे सूर्योभिन्दनादिक्षत्रादिके हे माह्ये वा हेवाह्यज्ञे हेमाहिमायो हेमाहि इन्द्रः हेमाहि गोषण् हेमाहिदेवानाः हापसल्नाः हस्मा रत्माभितौन्द्रः युश्च सौर्यश्च सहदंश्रियः मायुवस्वादस्य वर्यः हरे च आत्मानुरः शैव महानान्देर्ममानाः सहसोदत्तः शैवन्यसोदरेः सुत्रवत्ताविधुरा अपासृष्टिमपा अपासृष्टिमपा ष्टा भुवनम् देवसोबरेः आदिष्टा देवेण सज्जम् कर्णे मित्रविरामदेवाः सद्गम् लक्षे माच्छाः श्रीरङ्गेष्प्रभाग स्वस्य हैत्रे स्वपा पुष्पपान् प्रजावान् प्रसनाम् भवते वान् प्रजावान् प्रसरान् भवदे ह्येदः यो मायलम् वेद आयतनवान् भवदे हयभामायलम् आयतनवान् भवदे योराज्ञरायलनम् वेद आयतनवान् भवदे आ गो वाज्ञेरायलम् आयलवान् भवदे श एवम् वेद श्वो मायदनम् वेद आयलवानाम् भवदे आयोमायदनम् आयलवाणाम् भवने श्वो वायोरायलनम् वेद आयलवान् भवदे आयोरायदनम् आयलवान् भवदे श एवम् वेद शोभामायदनम् वेद आयलवान् भवदे अतोन्नवायदनम् आयलनरान्फले शिवश्यदवद आयलनम् वयता आयलनरान् भवजे हा बोधामुष्यदवद आयलनम् आयलवरान्फले ह्यम् वेदा शिवमायलनम् वयद आयतनवान् भवजे चन्द्रमापामायलनम् आयलनवान् भवजे शन्द्रमस आयलनम् वेदा आयतनवान् भवजे हा बोधे चन्द्रमस आयलनम् आयतनलानाम् फलदेशम् वेद यो हामायदनम् वेद आयलनलाम् भवने नक्षत्राणियतनम् आयनवलानाम् भवगे यो नक्षत्राणामायदनम् वेदः आयतनवान् फलदे हा गौरवीनक्षत्राणामायतनम् आयदनवान् फलगे च एवम् वेदा शोभामायलम आयुलवानम् भवने सत्यन्योगा अपामायलनम् आयुरलवानम् भवदे च सत्यन्यश्चायलनम् वैल आयुरलवानम् भवने हा भोदे पद्यन्यश्चायलनम् आयुरलवानम् भवने च एवम् वेदा योगामायलमलैल आयुरलानुभवदे आयनवानान् भवने हित्वम् वत्सरस्यायदनम् वेदा आयनवानान् भवने आहो वेदम् वत्सरस्यायदनम् आयनवरान् भवने शैवम् वेदुरावङ्गेन लोकाप्सु कलश्याःक्ता अपागुण्डसमुदयम् तौर्युक्रम् समासुरम् अपारगोधत्रयोदधः सङ्गोगृह्णाम् यत्तमलिके हिमेव लोका ते अपारगोधः चिन्नादित्युदानाः सांसभ्येनुत्तरवेगे काला अपारम्पोरयुक्तागुण्ठ्यम् पुष्करवर्णैः पुष्कलदण्डैः पुष्कलैश्वरव्यक्तेर्य सत्यम् विहाय चलय्यापसमाधायवादिना वदन्ते अपरेण मञ्जिते दिगले अपरेण मत्तकेन दिगले अधो भूमेः स्याद कृताः खं विलेता वेतना उपदसारये अर्घुहस्तेन जीवो नमः सदा वन्दे ब्रह्मश्चरः असो आहो सर्वज्ञेन प्रतिष्ठितः श्रेयद् भक्तवाहुत्संज्ञाः तं किंते न जय सत्यमक्केनच वहाः क्षेणः अमुमावित्वम् प्रत्यक्षेण प्राणाम् प्रत्यक्षेण किञ्चिदय मादो किञ्चिन् बाणः ब्रह्म प्रत्यक्षेण समजञ्चिजयः शरीरम् प्रत्यक्षेण समजञ्चिजय जैनवान् भवनवान् भगे